नारदपुराणं पूर्वार्थम् अध्यायं तर्टि सनक उवाच भूयशृणुष्व विप्रेन्द्र माहात्म्यं कमलापतेः कस्यनो जायदे जायते प्रीति श्रोतुं हरिकथामृतं नराणां विषयान्धानां ममताकुलचेतसाम् एकमेव हरिर्नाम सर्व सकृद्वान् न मेद्यस्तु विष्णुं पापहरं नृणां स्वपचं तं विजानीयात् हरिपूजा हरिपूजाविहीनं तु यस्य वैश्मद्विजोत्तम श्मशानसदृशं तद्धि कदाचिदपि नो विषेदहरिपूजाविहीनाश्च वेदविद्वेषिणस्तथा गोद्विजद्वेषनिरदा राक्षसाः परिकीर्तिताः यो वा को वापि विप्रेन्द्रविप्रद्वेषपरायणः समर्चयति गोविन्दं तत्पूजा विफला भवेद अन्यश्रेयो विनाशार्धं योऽर्चयन्ति जनार्दनं सा पूजैव महाभागपूजकानाशुहन्ति हरिपूजा करोयस्तु यस्तु यदि पापं समाचरेद मेव विष्णुद्वेष्टारं प्राहुस्तत्त्वार्थको विदाः ये विष्णुनिरदाः सन्ति लोकानुग्रहतत्पराः धर्मकार्यरता शश्वद्विष्णुरूपास्तु ते मदाः कोडि जन्मार्जितैपुण्यैर्विष्णुभक्ति प्रजायते दृढभक्तिमदाम् विष्णौ पाप बुद्धि कथम् भवेद् पापं पापम् विष्णुपूजारदात्मनाम् क्षयम् व्यादिक्षणादेव तेषाम् स्यात् पापधि कथम् विष्णुभक्तिविहीना ये चण्डाला परिकीर्तिताः चण्डाला अपि वैश्रेष्ठा हरिभक्तिपरायणाः नराणां विषयां धानां सर्वदुःखविनाशिनी हरिसे वेदिविख्यादा भुक्ति मुक्तिप्रदायिनी सङ्गास्नेहाद्भयाल्लोभादज्ञानाद्वापि यो नरः विष्णोरुपासनं कुर्यात् सोक्षयं सुखमश्नुते हरिपादोदकं यस्तु कणमात्रं पिबेदपि सश्नादः सर्वतीर्थेषु प्रियतरो भवेत् अकाल अकालमृत्युशमनं सर्वव्याधिविनाशनं सर्वदुःखोपशमनं हरिपोदोदकस्मृतं नारायणं परं धामज्योतिषां ज्योतिरुत्तमं ये प्रपन्ना महात्मानस्तेषां मुक्तिर्हि अत्राप्युदाहरन्तीममितिहासं पुरातनं पठतां शृण्वतां चैव सर्वपापप्रणाशनम् आसीत् गुलिको नामलुब्धकः परदार परदारपरद्रव्यहरणे सततोऽद्यदः जन्दू पद्रव जन्तूपद्रवकृत्तदा हदवान् ब्राह्मणान् गाश्च शदशोऽथ सहस्रशः देवस्वहरणे नित्यं परस्वहरणे तथा उद्युक्तसर्वदा विप्रकीनाशानामधीश्वरः तेन पापान्यनेकानि कृतानि सुमहान्ति च न तेषां शक्यते वक्तुं सङ्ख्या वत्सरकोडिभिः सकथा जिन्महापापो जन्तूनां मन्दकोपहा जन्तूनां मन्दकोपमः सर्वैश्वर्यसमन्वितं योषिद्धिर्भूषितार्भिश्च सरोभिनिर्मलोदकैः अलङ्कृतं विपणिभिर्ययोदेवः पुरोपमम् तस्योपवनमध्यस्थं रम्यं केशवमन्दिरम् सदिदं हे मतलशैर्दृष्ट्वा व्याधो मुदं ययौ हरम्यत्र सुवर्णानि बहूनिधिविनिश्चितं जगामाभ्यन्तरं तस्य कीनाश्चौर्यलो लुपः तत्रापश्यद्विजवरं शान्तं तत्त्वार्थकोविधम् परिचर्या परं विष्णोरुङ्गं तपःसां निधिं एकाकिनं दयासुं च निःस्पृहं ध्यानलोलुभं चौर्यान्तराय कर्तारं तं दृष्ट्वा लुब्धको मुने द्रव्यजातं तु देवस्य हर्तुकामोदि साहसि उत्तङ्गं हन्दुमारेभे विधृतासिर्मदोद्धः पादेनाक्रम्य तद्वक्षो जडा सङ्गृह्यपाणिना हुं कृतमदिं व्यादमुत्त प्रेक्ष्य चाब्रवीद उत्तुङ्गवाच भो, भो साधो वृथा मां त्वं हनिष्यसि निरागस्सं मया किमपराधं ते तद्वदस्व महामत्ते कृतापराधिनां लोके शक्ताशिक्षां प्रकुर्वते न हि सौम्यवृद्धाक्नन्ति सज्जना अपि विरोधिष्वपि मूर्खेषु निरीक्ष्यावस्थितान् गुणान् विरोधं न हि कुर्वन्ति सज्जनाः शान्तचेतसः बहुधा बोध्यमानोऽपि यो नरः तमुत्तमं नरं प्राहुर् विष्णोः प्रियतरं सदा सुजनो नयादि परहिद नयादिवैरं परहिदबुद्धिर्वनाश कालेऽपि चिदेच्छेदेऽपि चन्दनतरुःसुरभयदिमुखं कुढारस्य अधो विधिः सुबलवान् बाधदे बहुधा जनान् सर्वसङ्गविहीनोऽपि बाध्यते हि दुरात्मना अहो निष्कारणं लोके बाधं दे बहुधा जनान् सर्वसङ्गविहीनोऽपि बाध्यते पिशुनैर्जनैः तत्रापि साधून बाधं ते न समानान् कदाचन मृगमेन सज्जनानां तृणजलसन्तोषविहितवृत्तानां लुब्धगधीवरपिशूनां निष्कारणवैरिणो जगदि अहो बलवदी माया मोहयत्यखिलं जगद कलत्रार्थं सर्वं दुःखेन योजयेद् परद्रव्यापहारेण कलत्रं पोषितं त्वया अन्ते तत्सर्वमुत्सृज्य एक एव प्रयति वै मम मादा मम पिता मम भार्या ममात्मजाः ममेदमिधि जन्तूनां ममदा बाधदे वृद्धा यावदर्जयदि द्रव्यं बान्धवास्तावदेव हि धर्म धर्मौ स खैवास्तामिह मुत्र न धर्माधर्मार्जितैर्द्रव्याैः पोषितायेन ये नराः मृदमग्निमुखे हुत्वा कृदान्नं भुञ्जदे हि ते परलोकं च नरं दुह्यनुतिष्ठदः धर्माधर्मौ न च धनं न पुत्रा न च बान्धवाः कामः समृद्धिमायादि नराणां पापकर्मिणां कामस्संक्षयमायादि नराणां पुण्यकर्मणां वृद्धैव व्याकुला लोकाद्धनादानां सदार्जने यद्भावे तद्भवत्येव यदभाव्यं न तद्भवेद इति निश्चितबुद्धीनां न चिन्ता बाधदे क्वचिद देवाधीनमिदं सर्वं जगस्थावरजङ्गमं तस्माज्जन्मजमृत्युं च दैवं जानाति नापरह यत्र कुत्रस्तिदस्यापि यद्भाव्यं तद्भवेद्ध्रुवं लोकस्तु तत्र विज्ञाय वृद्धा यासं करोति हि अहो दुःखमनुष्याणां ममता कुलचेदसां महापापानि कृत्वापि परान् पुष्यान्ति यत्नदः अर्जितं च धनं सर्वं भुञ्जदे बान्धवाः सदा स्वयमेकतमो मूढस्तत् पापफलमश्नुते इति ब्रवाणं तमृषिं विमुच्य भयविह्वलः गुलिकप्राञ्चलिप्राह क्षमस्वेदि पुनः पुनः सत्सङ्गस्य प्रभावेण हरिसन्निधिमात्रतः गदपापो लुब्धकश्च श्यनुतापीदमब्रवीद मया कृतानि पापानि महान्ति सुबहूनि च तानि सर्वाणि नष्टानि विप्रेन्द्र तव दर्शनाद अहोकं पापधीर्नित्यं महापापमुपाचरं कथं मे यामिकं शरणं विभोः पूर्वजन्मार्जितायः पापैर्लुब्धकत्वमवाप्तवान् अत्रापि पापजालानि कृत्वा कां गतिमाप्नुयात् अहो ममायुः क्षयमेधिशीघ्रं पापान्यनेकानि समर्जितानि प्राधिक्रिया नैव कृदा मयैषां गदिश्च कास्यान्मम जन्म किं वा अहो विधि पापशदाकुलं मां किं सृष्टवान् पापतरं च शश्वत कथं च यत्पापफलं हि भोक्ष्ये कियत्सु जन्म स्वहमुग्रकर्मा एवम् विनिन्दन्नात्मानमात्मना लुब्धकस्तदा अन्तस्ताभाग्नि संतप्तः सद्यः पञ्चत्वमागधः उत्तङ्कः पदिदं प्रेक्ष्य लुब्धकं तं दयापरः विष्णुपादोदकेनैवमभ्य सिञ्चन्महामदिः हरिपादोदकस्पर्शाल्लुब्ध गो गतकल्मषः दिव्यं विमानमारुह्य मुनि मे गुलिक उवाच उत्तमुनिशार्दूल गुरुस्त्वं मम सुहृद विमुक्तस्त्वत्प्रसादेन महापादकुकाद गदस्त्वदुपदेशान्मे सन्तापो मुनिपुङ्गव तथैव सर्वपानि विनिष्ठान्यदिवेगदः हरिपादोदकं यस्मान्मयि त्वं सिकृतवान्मुने प्रापितोऽस्मि त्वया तस्मात् तद्विष्णोः परमं पदं त्वयाहं तरिदो विप्र पापादस्माच्चरिरतः तस्मान्नदोऽस्मि ते विद्वन्मत्कृदम् तत्क्षमस्व च इत्युक्त्वा देवकुसुमयमुनिश्रेष्ठं समाकिरं प्रदक्षिणात्रयम् कृत्वा नमस्कारं चकारसः तदो विमानमारुह्य सर्वकामसमन्वितम् अप्सरो गणसङ्कीर्णप्रभेदे हरिमन्दिरम् यदद् दृष्ट्वा विस्मितो सौ शिरस्यञ्जलिमाधाय तुष्टावकमलापतिम् तेन स्तुतो महाविष्णुर्दत्तवान्वरमत्तमं वरेण तेनोक्तं कोऽपि प्रपेदे परमं पदम् इति श्रीबृहन्नारदीयपुराणे पूर्वभागे विष्णुमाहात्म्ये सप्तत्रिंशोऽध्यायः ओम्